अथा एकादशोऽध्यायः वैशम्पायन उवाच अथापरो दृश्यतरूपसम्पदा स्त्रीणामलङ्कारधरो बृहत्पुमान् प्राकारवप्रे प्रतिमुच्यकुण्डले दीर्घे च कम्बूपरि हाटके शुभे बाहूच दीर्घान् प्रविकीर्यमूर्धजान् महाभुजो वारुणतुल्यविक्रमः गतेन भूमिं प्रति कम्पयस्तदा विराटमासाद्य सभा सम्प्रेक्ष्य राजोपगतम् सभातले व्याजात्प्रतिच्छन्नमरिप्रमाथिनम् विराजमानम् परमेण वर्चसा सुतम् महेन्द्रस्य गजेन्द्रविक्रमम् सर्वानपृच्छच्च सभानुचारिणः कुतोऽयमायाति पुराणमे श्रुतः न चैनमूचुर्विदितम् तदा नराः सविस्मयम् वाक्यमिदम् रूपोऽ सत्त्वोपपन्नः पुरुषो मरोपमः सत्त्वोपपन्नः पुरुषोपरोपमः श्यामो युवावारणयूतपोपमः परिहारकामः सर्वान् मत्स्यान् पालयस्व नैवंविधा क्लीबरूपा भवन्ति कथञ्चनेति प्रतिभाति वेणीं प्रकुर्यां रुचिरे च कुण्डले तथा स्रजप्रावरणानि सम्हरे स्थानं चरेयं विमृजे दर्पणं विशेषकेष्वेव च कौशलं मम क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम करोमि वेणीषु च पुष्पूरणं नमे स्त्रियकर्मणि कौशलाधिकाः विस्मितो विराजोपसुतंहस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हो नरदेवसिंह तवैषवेषुभवेशभूषणैर्विभूषितो भूतपतेरिव प्रभो विभाति भानोरिव रश्मिमानिनो घनावरुद्धे गगने घनैरिव धनुर्हि मन्ये तव शोभयेद्भुजौ गायामि नृत्यां यथा वादयामि भद्रोऽस्मि नृत्ये कुशलोऽस्मि गीते त्वमुत्तरायै प्रतिशस्मां स्वयं भवामि देव्या नरदेव नर्तकः इदं तु रूपं मम किन्त प्रकीर्तयित्वा भृषशोकवर्धनं बृहन्नलां नरदेव विद्धि सुतं सुतां वा पितृमातृवर्जिता ददामि ते हन्त वरं बृहन्नले सुताञ्च मे नर्तय याश्च तादृशीः ते कर्म मतं समुद्रनेमीं पृथिवीं त्वमर्हसि वैशम्पाय न उवाच बृहन्नलां तामभिवीक्ष्यमत्सराट् कलासु नृत्येषु तथैव वादिते संमन्त्र सखीश्च तस्याः परिचारकास्तथा प्रियश्च तासां तव तथा स सत्रेण धनञ्जयो वसन् कुर्वन्तः ताभिरात्मवान् तथा च तं तत्र न जज्ञिरेजना बहिश्चरा व्याप्यत चान्तरेचराः